एतद्ब्राह्मणान्नेव पञ्च हवेषे अथेन्द्रायशुनाथीराय पुरोढा छन्द्वादशपालम् निर्वपते सम्वत्सरो वायुन्द्राशुनाधीनः समंवत्सरे नैवास्मान्नवृन्धे वायव्यम् पयो भवति वायुर्वे वृष्टे ये प्रदापयिता स्वरे वा स्मे वृष्ट्यम् प्रदापयति सौर्यये च सूर्येण वामुष्मल्लोके वृष्ट्यर्थता स एव वृष्ट्यर्निरक्षते समर्थ्यैवासुरासंयत्ता सन् एवाज्ञमब्रुवन् या वेदे सोऽहमात्मानम् व्यकरिष्यति सत्र यथा आत्मानम् व्यकुरुता अज्ञन्तयम् रुद्धन्तितेयम् ीयम् सोऽब्रवीत् कैहम् तुलीयमिति अहमिजेन्द्रो अब्रवीत् सन्तुसृजावः इति तौ समशेतास्तुलीयमभवत् यगेन्द्रस्तुलीयमभवत् रीन्द्रतुलीयस्यलीयत्वम् ततो वेदेवाभिजयन्त यगेन्द्रतुलीयन्निरुप्यते अभिजिप्ते यद्ब्रहिणेः ौद्री यद्धेनुःस्त्री सतीतान्ता वेणवारुणे समृद्धे प्रजापतियज्ञमसृजताष्टकुम् रक्षाकस्य लिखाकुम् सन् स जताः प्रजापतिरात्मनो देवतानिरमिमीता ताभिर्वेषु निग्भ्यो रक्षाकुम् धिप्राणुदता तिपञ्चावत्तीयम् जुहोति विभ्य एव त्यजमानो रक्षाकम् हिप्रणदते समूढगोरक्षः सन्दर्भगोरक्षयित्याह रक्षाकस्येव सन्दहति अग्नये रक्षोग्ने स्वाहेत्याः देवताभ्य एवधेयम् करोति वृष्टिवाहीरथो दक्षिणाथमध्यै इन्द्रोभृत्रम् हत्वा असुरान् पराभाव्य न मुचिमासुरम् च्चगृह्णात् औसमलभेताम् सोऽस्मादभिसुनो भवत् सोऽप्रवीरे सन्धाकम् सन्दधा वहै अथ त्वावस्रक्ष्यामि न मा दुष्केण निवारणक्तमिति स एतमपाम्फेनमसिञ्चत न मा एतौ नाद्रोद्युष्टाधीरे अनुदितः सौर्यः न वा तस्यैतस्मिल्लोके अपाम्फेन शिरमुदवर्तयते अनेन वर्तत मित्र धृजिते स एतानपामार्गानुजनयते आनुजुहोते हयैर्वै एता स रक्षाकस्य पाहत यदपामार्गहोमो भवति रक्षसानपाहत्यै एकोन्मुखेन यन्ति तद्भ्य रक्षसाम्भागधेयम् इमाम् विधयन्ति एतावै रक्षसान्विके स्वायामेव दिशरक्षाकम् जिहन्ति स्वकृतगिरिणे जिहोजिप्रतरेवाः एतद्वै रक्षसामायतनम् स्वदेवायतने रक्षाकम् जिहन्ति पर्णमयेन श्रुवेण जिहोजि ब्रह्म वै वर्णः ब्रह्मणैव रक्षाकम् जिहन्ति देवस्यर्ता स पितप्रसमगत्याः स्ववितर्प्रसूत एव रक्षाकम् यद्वस्ते तद्यक्षिणा जलमध्ये लक्षे क्षमायन्ते रक्षता मन्त्रे धात्रे पुरोधा शन्वादशगपालण्र्वमते सम्वत्सरा वैधाता संवत्सरे नैवास्मै प्रजा प्रजनयते अन्वेश्मानुमतिर्मन्यते राजेदाका प्रजनैवाजे जनयति प्रजास्तेव प्रजाता भुक्त्वा वाचम् दधाति क्षिणा समृद्ध्यै आग्ना वैष्णवमेकादशकपालम् गर्भपते अ इन्द्रा वैष्णवमेकादशकपालम् वैष्णवन्त्रिकपालम् वीर्यम् वा अग्निः वीर्यमिन्द्रः वीर्यम् विष्णुः प्रजा एव प्रजाता वीर्य प्रतिष्ठापयति तस्मा प्रजा वीर्यावतीः वामनर्षभो बहि दक्षिणा यद्बहि हेनाः जेयः यदृषभः तेनेन्द्रः यद्वामनः हेन वैष्टवः समृद्ध्यै अग्निशोमीयमेकादशकपालम् निर्ववति इन्द्रासोमीयमेकादशकपालम् सौम्यञ्जनम् सोमो वेरे तोषाः अज्ञः प्रजानाम् प्रदापयिता वृद्धानामिन्द्रः प्रदापयिता सोमगेवा स्मेरे तोधादि अज्ञः प्रजाम् प्रजनयति वृद्धामिन्द्रः प्रयच्छति बभ्रुर्दक्षिणासमृद्ध्यै सोमापौष्णम् चलम् गर्भवति ऐन्द्रापौष्णञ्जलम् सोमो वैरेतोषाः ऊषापशूनाम् प्रजनयिता वृद्धानामिन्द्रः प्रदापयिता सोमगे वा स्मैरे तोदधाति ऊषापशून् प्रजनयति वृद्धानिन्द्रः प्रयच्छति पौष्णश्चरुद्भवति इयम् वै पूषा अस्यामेव प्रतिष्ठति श्यामो दक्षिणा समध्यै महुवै पुरुषो मेध्यमुपगच्छति वैश्वानरम् तादृशगपानन्यर्पपति संवत्सरो वाग्निर्वेष्वानरः संवत्सरेणैवैनग्निस्पदयति हिरण्यम् दक्षिणा पवित्रम् वै हिरण्यम् पुनः बहुवीराजन्योजम् करोति उपजान्ये हरते ब्राह्मणम् पदत्यजतम् पदे खलु वे क्रियमाने वरुणा गृह्णाते चरण्यर्णपदे वरुणपाशा देवैनम् मुञ्चते अश्व दक्षिणा वारुणा हि राष्ट्रस्य प्रदातारः एकेव दातारः एव राष्ट्रस्य दातारः तदेवास्मै राष्ट्रम् प्रयच्छन्ति राष्ट्रमेव भवति यत्समाहृत्य निर्वमेत्नस्यो निर्वमेण हविषा सुषमवृन्धे तावदेव वृन्धीता अन्वहन् निर्गपति भूयसी मेवासुषमवृन्धे भूयसा यज्ञकृतोऽनुपैति त्यम् चरुणपति ब्रह्मणो गृहेवास्मै ब्रह्मलग्निष्यति सौ ब्रह्मेव क्षत्रमन्वारम्भयति श्रुतपृष्ठोदक्षिणा समर्थे हैन्द्रमेकादशगमालगौरारण्यस्य गृहे इन्द्रियमेवावन्धे वृषभोदक्षिणा समर्थे आदित्यम् चम् महेश्वे गृहे यम् वा अतिथिः अस्यामेव प्रतिष्ठते धैलम् दक्षिणा समर्थे भगायुतम् वाचाये गृहे भगमेवास्मिन् दधाते विचित्तगर्भापष्टौ हि दक्षिणा समृद्धे तलम् परिवृत्ते गृहे कृष्णानाम्भिन्नम् कृष्णाकूटा दक्षिणा समृद्धे आग्नेयमष्टाकपालकम् सैनाञ्जेनामेवास्य हिरण्यम् दक्षिणासमृद्धे वारुणन्दशकपालकम् सौतस्य गृहे वर्णसवमेवावरुन्धे महायष्टो दक्षिणासमृध्ये मातगृम् दत्तकपालम् ग्रामन्योद्घे अन्नम् वे मरुतः अन्नमेवावरुन्धे कृष्णर्दक्षिणासमृध्ये सा मित्रन्दादशकपालम् शत्रुर्ग्रहे कृसोहोद्ये उपध्वस्तो दक्षिणासमर्थ्ये आश्विनन्दिकपालकम् अश्विनौ वै देवानाम् भिरजौ आभ्यामेवाश्मेभेजम् करोति स वाद्यौ दक्षिणा समृद्धे पौष्टम् चलम् भागदृहस्य गृहे अन्नम् मे पूषा अन्नमेवावरुन्धे श्यामो दक्षिणासमृद्धे ररुद्रङ्गाभेशम् जलमक्षा वापस्य गृहे अन्ततगेव रुद्रन्निरमजयते सबलौद्वारो दक्षिणा समृद्धे द्वादशेतानि हवेकम् च भवन्ति द्वादशमासाः संवत्सरः संवत्सरेणैवास्मि राष्ट्रमवरुन्धे राष्ट्रमेव राज्प्रम भवति यन्नप्रतिनिर्वशिषोपरुन्धेरन् प्रतिनिर्वपति इन्द्रागसूत्राण्ये पुरोटाशमेकादशकपालम् इन्द्रायागम् होमुचे आशिष एवावरुन्धे अयम् न राजा वृत्रः राजा भोत्ता वृत्रम् बद्धा इत्याह आशिषमेवैतामाशास्ते मैत्रा वादृहस्पत्यम् भवति श्वेताये श्वेतवत्साये दुग्धे वारृहस्पत्ये मैत्रमपि दसा ब्रह्म दैवास्मैः क्षत्रम् च समीचीतधाति अथवा ब्रह्मन्नेव क्षत्रम् प्रतिष्ठापयते बारहस्पत्येण पूर्वेण प्रचलति मुखत एव स्मये ब्रह्म दर्गश्यते अथो ब्रह्मन्नेव क्षत्रमन्वारम्भयति स्वयङ्कृता वेदद्भवति स्वयम् दिनम् परिहे स्वयम् कृतयुद्धः अनभिजितस्याभिजित्यै तस्मात्राज्ञामरण्यमभिजितम् दक्षिणा सौलज्ञासुवा एतावन्तो वै देवानागुम् सभाः तगेवास्मै सभान् प्रयच्छन्ति तगेन गुंसुवन्ते अग्रेवेण गृहपदेनागुम् सुवदे सोमो वनस्पतीनाम् रुद्रः पशूनाम् गृहस्पदर्वाचाम् इन्द्रोवाज्येष्ठानाम् निद्रः सत्यानाम् वर्णोधर्मपतीनाम् एतदेव सर्वम् भवति प्रसभा नागुमसुमदाज्तृत्सो ये देवायसुपस्थेते महते क्षत्रा महत आधिपत्याय महते जान्याह आशुषमे वेतास्ते जो भरता सोमोस्माक्राह्मण नागंराजेह तस्मात् सोम राजानाब्राह्मणाः प्रदृत्यम् नाम राज्यमधायीत्याह राज्यमेवास्मिन् प्रतिदधाति स्वाम् अनुभम् वर्णोऽश्येरित्याह वर्णसुममेवावरुन्धे शुचमित्रस्य वृत्त्या भूमेत्याह शुचिमेवैनम् वृत्तम् करोति अमन्मयमहदरदस्य नामेत्याह मृत एवैनम् सर्वे व्राजावरुणस्य भूमन्नित्याह सर्वव्राजमेवैनम् करोति विमित्रयेवैरराजमतायेदित्याह अराजमेवैनम् तारयति असौषदम् दे गजाते नेत्याः स्वजयत्येवैनम् द्वित्रतो यमानम् आयुषित्याह आयुरेवास्पिन् दधाति द्वाभ्याम् विमृष्टे विवाद्यमानप्रतिष्ठिक्ते ज्ञे सोमे यस्य एकादशकपालस्य देवसुभान् च हमिषामग्णद्यते न भयतः परिगृह्णाति पुष्टक्रमान् क्रमते पुष्टुरेव भोत्प्रेमान् लोकानभिजयति अर्थे तस्थेति जुहोति आहुक्तेनानुष्क्रेयगृह्णाति अथो हविष्कृतानामेवाभिघृतानाम् गृह्णाति वहन्तेनाम् एता वा असो राष्ट्रम् राष्ट्रमेवास्त्रेगृह्णाति असौ श्रियमेवैनमभिवहन्ति अपाम्पचरसेत्याः विथमेवकः कृषाः स्यूर्मिरित्याः ऊर्मिमन्तमेवैनम् करोति कृषसेनासेत्याः सेनामेवास्पृशगच्छति प्रचक्षितस्थेत्याः एतावा अपाम्विधः विषमेवास्मै परियोहति अनुदामोजस्थेत्याह अन्नम् वै वर्दः अन्नमेवावरुन्धे अन्नमे सूर्यवर्चसस्थेत्याह राष्ट्रमेव वर्चस्य कः सूर्यत्वजसस्थेत्याह सत्यम् वा एतत् यद्वरिषति अनृतै यदा च पथिपरिषति सत्यादृते एवावरुन्धे नैज किम् सत्यादृते उदिते हि गुस्तः एवम् वेद मान्तास्थेत्याह राष्ट्रमेव ब्रह्मवर्त्यस्य कः पाशास्थेत्याः राष्ट्रमेव वश्यकः षट्परे स्थेत्याः पशु अवीषरीः पशूनेवावृन्धे विश्वभदस्थेत्याः राष्ट्रमेव वैश्यकःस्थेत्याः राष्ट्रमेवेन्द्रियाव्यकः अग्नेस्तेजस्याः स्थेत्याह राष्ट्रमेव तेजस्विकः अपामोषधीनागतस्थेत्याह राष्ट्रमेव वधव्यमकः सारस्पतम् ग्रहम् गृह्णाति एषा वा अपाम् पृष्ठम् यत्सरस्वती पृष्ठमेवैनकंसमानानाम् करोति षोडशभैर्गृह्णाति षोडशकलोभैपुरुषः यावानेव पुरुषः तस्मिन्वे विजन्धादि षोडशभिर्जुहोरिषोडशभिर्गृह्णादि भात्रिंशत्सम्पद्यन्ते भातृकिंसदक्षदानुष्टुके भागनुष्ठुप्सर्वानिच्छन्दा किंसि वाचैवैनकं सर्वेभ्यः्छन्दाभिरभिषिञ्चति हे वीरापः सम् मधुमदेर्मधुमदेभिः सृजध्वमित्याह ब्रह्मणैवैनाः सकम् सृजति अनाशिष्टाः सीरतेत्याह ब्रह्मणैवीनाः साधयति तलाहोष्टियम् ब्राह्मणाच्छगुंस्य साधयति आज्ञेयो विहोता ऐन्द्रो ब्राह्मणाच्छगुंसि तेन सा चैवन्द्रेण च भयदो राष्ट्रम् परिगृह्णाति हिरण्येनोत्पुणाति आहुत्यैः पवित्राभ्यामुत्पुणम् दिव्यावृत्त्यै शतमानम् भवति शतायुः पुरुषश् शतेन्द्रियः आयुष्केवेन्द्रिये प्रतिष्ठति अणिभृष्टमसीत्याह अनिभृष्टगृह्येतत् पाजोबन्धरित्याह पाजोह्येषबन्धुः तपोजा इत्याह तपोजाह्येतत् सोमस्य दात्रमसीत्याह सोमः सह्येतद्दात्रम् शुक्रावः शुक्रगम् हिरण्यम् चन्द्राश्चन्द्रेणेत्याह चन्द्राह्यापः चन्द्रगम् हिरण्यम् अमृता अमृतेनेत्याह अमृता क्यापः अमृतगम् हिरण्यम् स्वाहा राजसूयायेत्याह राजसूयायकेनावत्पुनाति सहमादो व्युम्निनेधोऽवारण्यर्चागृह्णाति कर्णसमेवावरुन्धे एकजा गृह्णाति एकथैव यजमाने वेर्यन्तधादे क्षत्रस्योल्पमये क्षत्रश्रियोर्प्यम् चोश्लेषम् च प्रेच्छयो नित्वाय एकश्रेण तर्भवम् चेदैः पवयति सदायुरुषश्रैव या। आत्मैकसदः यावानेव पुरुषः तस्मिन् वेर्यन्तधादे तध्याशयति इन्द्रियमेवावरुन्धे उदुम्बरमाशयति अन्नाद्यस्यावरुद्ध्यै सष्टा न्यासयति सुराबलिमेवैनम् करोति आविदयता भवन्ति आविदमेवैनम् गमयन्ति अग्निरेवेणङ्गादिकमद्येनावधि इन्द्र इन्द्रियेण ऊषा पशुभिः पित्रावरुणौ प्राणापाणाभ्याम् इन्द्रो वृत्ता यवज्रमुदयच्छत् सैवमलिखत् सोऽहर्यम्नः पन्था अभवत् सा विन्देद्या वा पृथिवे धनुव्रज इति द्या वा पृथिवे उपाधावत् साभ्यामेव प्रभूत इन्द्रावृत्राय वज्रम् प्राहरत् का विन्देद्या वा पृथिवे धनव्रज इति गताः आभ्यामेव प्रभूतो अस्यामेव प्रतिष्ठते आविन्नायमसा वाष्यायण्याम् विश्वस्मिन् राष्ट्रेत्याहैव राष्ट्रेण समर्थयति महते क्षत्राय महताधिपत्याय महतेजालराज्यायेत्याः आदिषमेव भरता राजा सोमोऽस्वायम् ब्राह्मणा नागोरायेत्याह सोम राजा ब्राह्मणाः इन्द्रस्य वज्राशिवाज्ञैरिधनः प्रयच्छति विजित्यै शत्रुपाधनाश्चेतेषो शत्रु ने शत्रूणेवाश्च पाधन्ते पादमा प्रत्यञम् पादमादियञ्जमन्वम् मा पादेत्याः तिस्रोभीषरव्याः शोचे आभ्य एवैनम् पान्तिभो मा पादेत्याः दीर्घ एवैनम् पान्ति विश्वाःभ्योमानाष्ट्राभ्यः पादेत्याः अपरिमिता देवैनम् पान्ति यरण्यवर्णा वृसाम् विरवेय दृष्टभा बाहु गृह्णादि इन्द्रियम् वे वेर्यम् दृष्टे इन्द्रियमेव वेर्यमृष्टात्मम् धत्ते मनसानुप्रक्रामति अभिन्माद्य समिधमातिष्ठेत्याह तेजमेवावरुन्धे बुग्रामादिष्ठेत्याह इन्द्रियमेवावरुन्धे विराजमादिष्ठेत्याह अन्नाद्यमेवावरुन्धे पुमादिष्ठेत्याह पशूनेवावरुन्धे ऊर्ध्वामाधिष्ठेत्याह स्वर्गमेव लोकमभिजयति मनोग्हेते स्वर्गस्य लोकस्य समष्ट्ये मारुतयेन भवति अन्नम् वै मरुतः अन्नमेवावरुन्धे एकविघूषेकपाल भवति प्रतिष्ठित्यै वाक्यो गणः सम्बध्यदमुपदधाति ग्राम्ये एव पशुभिरारण्यान् पशून् परिगृह्णाति तस्माद् ग्राम्ये पशुभिरारण्याः पशवः परिगृहीताः सर्वेऽण्यः अभ्यशिच्यता स राष्ट्रम् न भवति एतानि पार्थ्यपश्यते आन्यजुहोद्वेदराष्ट्रमभवते यत्पानि जुहोति राष्ट्रमेव भवति बाह्यस्फत्यम् पूर्वेदामुत्तमम् भवति ऐन्द्रमुत्तरेणाम् प्रथमम् ब्रह्म चैवास्मै क्षत्रम् च समीची अथवा ब्रह्मन्नेव क्षत्रम् प्रतिष्ठापयति षड् पुरस्तादविवेकस्य जहोति षड्वरिष्ठा च द्वादश सम्पद्यन्ते द्वादशमासाः संवत्सरः संवत्सरः खलु वै देवानामेव देवा परम् मध्यतो व्यवसर्पति तस्य न कुतश्च नापाव्याघो अत्रात्र वै मृत्युर्जायते यत्र यत्रैव मृत्युर्जायते तदेवै नमवेदते तस्मात् सर्वमायुवेति सर्वेकस्य मृत्यवो वेष्टाः तस्मात् राजसूयेन जानो नाभिज वै प्रत्यये कारः शृणुते सोमस्य त्रिषुसितवे त्रिषद्भोजादिपिशार्दो नोपस्थिनादि ैव सो मे त्रिषिः यासार्दूले तामेवावृन्धे मृत्योर्वा एष वर्णः यच्छार्दूलः अमृतगृहेरण्यम् अमृतमस्य मृत्योर्मापाहीर्हिरण्यमुपास्यति अमृतमेव मृत्योरन्तर्धत्ते शतमानम् भवति शतः यः पुरुषः शतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति यद्योन्मापादेत्युपरिष्टादशनिदधातिवास्मै शर्मदधाति अमेष्टादन्तशो कागि क्लेपम् शीलेण विध्यति दन्तशोकानेवाभेजते अस्मा केवन्दशो कादकम् सुकाः निरस्तन्नमुयिति लोहिताय सन्निरस्यति वामानमेव नमुचनिरवदयते प्राणा आत्मनः पूर्वे भजित्सा इत्याहुः को मोराजा वरुणः देवासन्मसुमश्चये ते दे पेवाचकुंसु दे वन्तान्ते प्राणपुंसुवन्तामित्याह प्राणानेवात्मनः पूर्वानभिणिञ्चति ब्रूयात् अग्ने स्वाकेतसाभिरुञ्जामीति एतस्वेव स्यात् दुश्चर्मातुभवेत् सोमश्चत्वाद्भिम्नेनाभिरुञ्जामीत्याह सौम्यो मे देवतया पुरुषः स्वदेवैनम् देवतयाभिषिञ्चते अग्नेत्याहेवास्मिन् दसादे सूर्यस्य वर्धसेत्याहरेवास्मिन् दसादे इन्द्रस्येन्द्रियेणेत्याह इन्द्रियमेवास्मिन् दसादे मित्रावर्णयोर्वीर्येणत्याह वीर्यमेवास्मिन्द्रसादे मरुदामोधसेत्याह भोज एवास्मिन् दधाति क्षत्राणाः क्षत्रपतिरथीत्याह क्षत्राणामेवेयम् क्षत्रपतिम् करोति अतिदिवस्पाहेत्याह अत्यन्यान्पाहे दिवावेददाः समावर्तन्न धरावृति जेरित्याह राष्टमेवास्मिन्ध्रुमगः उच्छेशणेन जुहोदि उच्छेशणभागो वे रुद्रः भागभेदेनैव रुद्रम् निरवजयत् उदम् फलेत्याग्ने एषा मे रुद्रस्य जगे स्वायावेपदिशि रुद्रम् निरपदयते रुद्रयत्यक्रयेपरन्नामेत्याह यद्वास्यक्रयेपरन्नाम तेन वा एष हिनस्ति यगौ हिणस्ते तेनैव सहसमयति तस्मै हुतमसी मेष्टमसेत्याह देवास्य मृत्युमपयजते प्रजापतेनय राष्ट्रमस्यै प्रजा, प्रजा स्यादि राष्ट्रमेवास्यै प्रजाभवदे पर्णमयेनाध्वर्यलभिजिजे ब्रह्मवर्तसमेवास्मिन् विजयम् दधाति औदुम्बरेण राजन्यः ऊर्जमेवास्मिन्नन्नाद्यम् दधाति आष्पथेन वैश्यः विषमेवास्मिन्मुष्टिम् दधाति नैयग्रोधेण जन्यः मित्रान्नैवास्मै कल्पयति अथो प्रतिष्ठ्यत्यै इन्द्रस्य वज्रो शुभार्तघैरसमुहरविवेजित्यै निर्णयोस्त्वाप्रशास्त्रो शशुराभिलग्मीत्याह ब्रह्मणैवयम् देवनाभ्याञ्जनक्मि पृष्टिवाहिनत्ये पृष्टिवाही वै देवः देवर्थमेवास्मै विनक्ते त्वयोश्वा भवन्ति रथश्चतुर्थः दौसौ व्येष्टसा यत्सम्पद्यन्ते यद्वार्तवः ऋतुषरेवक्रमान् क्रमते कृष्णरेभूक्तेमान्मतानभिजयति यः क्षत्रियः प्रतिहितः सोऽन्वारभदे राष्ट्रमेव भवतिभान्नारभदे इन्द्रियम् वै तृष्णे इन्द्रियमेव यजमाने तथादि मरुताः मरुद्भिरेव प्रसूदमुज्झयति आप्तम् वनयित्याह यदेव मनसेप्सेत् तदापन्यम् जिनाति अनाक्रान्तदेवाक्रमतेन्द्रियेण वीर्येण लभ्यते यो राजन्यम् जिनाति समहमिन्द्रियेण वीर्येणेत्याह इन्द्रियमेव वीर्यमात्मन्धत्ते पशूनाम् मन्यसुरवे मन्यूया यदि बाला हि बाणः आगमञ्जले पशूनाम् वारेण मन्यो यद्वराह तेनैव पशूना मन्यमात्मम् धत्ते अभिवाह्यगम्बाणम् कामयते तस्येश्वरेन्द्रियम् वीर्यमादातो बाला हि बाणः आगमञ्जले अस्या एवन्तर्धत्ते इन्द्रियस्य वीर्घस्यानात्ये नमो मात्रे पृथिव्यायित्याहुंसायि यदस्याविरस्यायम् मेधेहीत्याह आयेवात्मन्धत्ते ऊर्धस्योर्जम् मेधेहीत्याह ऊर्जमेवात्मन्धत्ते लुङ्गसिमर्चो शिवर्चो मयिधेहीत्याहवात्मन्धत्ते एकधा ब्रह्मणो वहरति भवन्ति तस्मा चतुर्जहोदे प्रतिष्ठेताम् समानम् लोकमियाताङ्गृहेत्रा समादधाते सुवर्गादेवेन लोकादन्तर्गधादे हंसस्तु चतुरित्या चादे ब्रह्मणेवेन मुखावहरते ब्रह्मणा दधाते अतिच्छन्दसा दधाते अतिक्षन्दा वे सर्वानिच्छन्दागुञ्जे सर्वेभिरेवैन्दोभिरादधाते पर्श्ववा एषा छन्दसा हिरदिच्छन्दाः करोति मित्रोऽ वरुणौ सेत्याह त्राभ्यामेव मेत्रोऽवर्णेत्याह वे मेत्रो वेदक्षिणः वारुणः सव्यः ऐश्वदेव्या वीक्षाः स्वमेवेनो भाग्यधेनमुपावहरते स्वहम् विश्वेदेवैरित्याह ऐश्वदेव्यो वै प्रजाः साद्यात् कुरुते क्षत्रस्य नासमासीतंसेन्माहित्याहांसाय विषसार्थम्राज्यमेव जन् ब्रह्मादित्रौतिविषयित्याह मित्रमेवेणकम् सुषेवम् करोति सत्यसम्मानम् करोति सहितादिसत्यसु वैत्याः गायत्रीमेवेतेनाभिव्याहरति इन्द्रादिसत्यौ जायुत्याः सुष्टुपमेवेतेनाभिव्याहरति मित्रादिथयवैत्याः जगदीमेवैतेनाभिव्याहरति सत्यमेता देवताः सत्यमेताच्छन्दागृन्धे सत्यमेवावरुन्धे वरुणादित्यसमेप्याः अनुष्टपमेवैते सत्यादृते वा अनुष्टपे सत्यादृते वरुणः सत्यादृते एवावरुन्धे सत्यादृते वृतेगस्तः इन्द्रः समग्रोस्फ्यम् प्रयच्छति अध्योमैस्प्यः पञ्च नैवास्मा अपरपरकम् रन्धयति एवम् राजा भोजति पञ्चाक्षान् प्रेक्षति एते सर्वे याः अपराजा इनमेवैनम् करोति परमेष्ठीमा एषः यदोदनः परमामेवेन गमयति ङ्गला सत्यराजा नित्याः आशिषमेवैतापाशास्ते शौनशैवमाख्यापयदे शरणपाशादेवैनम् मुञ्चति परः शतम् भवति शदायुः पुरुषश्रदेन्द्रियः आयुष्वेवेन्द्रिये प्रतिष्ठति मार्गस्यैकविंशैकपालस्य वैश्वरे व्ये चमक्षाजाग्नये कृते सममर्जने देवदाभिरेवेण भयतः परिगृह्णाते अपान्नत्रे स्वाहोर्जो ने स्वाहाग्ने स्वाहे श्राहुदेज्यो हिमे लोकाः एष्वेव लोकेषु प्रतिष्ठति